अथ श्रीबृहन्नारदीये पुराणि पुरुषोत्तममासमाहात्म्य अधिमासस्य वैकुण्ठप्राप्णन्नाम तृतीयोऽध्यायः ऋषय ऊचुः नारायणो नरसखा यदुवाच शुभं वचः नारदाय महाभाग तन्नो वदसविस्तरं सूत उवाच नारायणवचो रम्यं श्रूयतां द्विजसत्तमा यदुक्तं नारदायै तत् प्रवक्ष्यामि यथा श्रुतं श्रीनारायण उवाच शृणु नारदवक्ष्यामि यदुक्तं हरिणापुरां राज्ञे युधिष्ठिरायैवं श्रीकृष्णेन महात्मनम् एकदा धार्मिको राजा जातशत्रुर्युधिष्ठिरः द्यूते पराजितो दुष्टैर्धार्तराष्ट्रैश्चलप्रियैः समक्षमग्निसम्भूता कृष्णाधर्मपरायणं दुःशासनेन दुष्टेन कचेष्वादाय कर्षिताम् आकृष्ट्यानि च वासांसि श्रीकृष्णेन सुरक्षितं पश्चाद् राज्यं परित्यज्य प्रयाता काम्यकं वनम् अत्यन्तं क्लेशमापन्नाः पार्थावन्यकचिताः सर्वे गजा इव अथतां तान्दुःखितान् द्रष्टुं भगवान् देवके सुतः जगामकाम्यकवनं मुनिभिः परिवारितः तं दृष्ट्वा सहसोत्तस्थुर् देहा प्राणानिवागतान् पार्थाः सस्वजिरे स्वजिरे प्रीत्या कृष्णं प्रेम विह्वला तौ चानीनमतां भक्त्या यमौ हरिपदां द्रौपदी तं न नामाशु शनै शनैरतन्द्रितां तान् दृष्ट्वा दुःखितान् पार्थान् रौरवाजिनवासि सः रौरवाजिनवाससः धूलिभिर्धूसरान् रुक्षान् सर्वतः कच संयुतान् पाञ्चालीमपि तन्वङ्गीं तादृशीं दुःखसंवृतां तेषां दुःखमतीवोग्रं दृष्ट्वैवातीव वा दुःखितः धार्तराष्ट्रान्तग्धुकामौ भगवान् भक्तवत्सलः चक्रेकोपं कोपं सविश्वात्मा भ्रूभङ्गकुटिलेक्षणः कोटिकालकरालास्य प्रलयाग्निर्वोत्थितः सन्दष्टौष्ठपुटः प्रोच्चैस्त्रिलोकीं ज्वलयन्निव सीतावियोगसन्तप्तः साक्षाद्दाशरथिर्यथां तामालोक्य तदा वीरो मालोक्य तदा वीरो विभत्सुर्जात विपथुः उत्थाय कृष्णं तुष्टाव बद्धाञ्जलिपुटं भिया धर्मानुमोदितः शीघ्रं द्रौपद्या च तथा परैः अर्जुन उवाच हे कृष्ण नाथ नाथ नाहं जगद्वहिः त्वमेव जगतां पाताम् मां न पासि कथं प्रभु यच्चक्षुःपातनेनैव ब्रह्मणः पतनं भवेत् किं कोपेन न भवेत् को वेद किं भविष्यति क्रोधं संहरसंहर्तस्तात तात जगत्पते त्वद्विधानां च कोपेन जगतः प्रलयो भवेत् वन्दे त्वां सर्वकारीकृष्णमीश्वरं वेद भी त्वमीश्वरो सृजः सर्वं जगति तच्चराचरं सर्वमङ्गलमाङ्गल्यं बीजरूपः सनातनः सकथं स्वकृतं हन्याज् विश्वमेकापराधतः मशकान् भस्मसात् कर्तुम् को वा दहति मन्दिरम् श्रीनारायण उवाच इति विज्ञाप्य श्रीकृष्णं फाल्गुनः परवीरः बद्धाञ्जलिपुटो भूत्वा प्रणनामजनार्दनं हरिः क्रोधं निरस्याशु सौम्यो भूचन्द्रमा इव समालक्ष्य सर्वे पाण्डवाः स्वास्थ्यमागता प्रीत्युत्फुल्लमुखाः सर्वे प्रणेमुः प्रेम विहलाः श्रीकृष्णं पूजयाञ्चक्रुर् वन्यैर्मूलफलादिभिः ततः प्रसन्नं श्रीकृष्णं शरण्यं भक्तवत्सलं विज्ञायावनतो भूत्वा बृहत्प्रेम परिप्लुतः बद्धाञ्जलिर्गुडाकेशो नाम नामं पुनः पुनः कृतवान् प्रश्नं यथा पृच्छति मां भवान् श्रुत्वैवं भगवान् दध्यौ मुहूर्तं मनसा हरिः ध्यात्वाश्वास्य सुहृदवर्गं पाञ्चालीं च धृतव्रताम् उवाच वदतां श्रेष्ठवानां हितं श्रीकृष्ण उवाच ृणुराजनमहाभागं बिभत्सो ह्यद्वचः अपूर्वोयं कृतः प्रश्नो नोत्तरं वक्तुमुत्सहि एष गुह्यतरो लोके ऋषीणामपि दुर्घटः तथापि वक्षे मित्रत्वाद् भक्तत्वाच्च तवार्जुनम् तदुत्तरमतीवोग्रं क्रमतः शिणु सुव्रतम् मध्वादयश्चयेमासा लवपक्षाश्च नाडिकाः यामास्त्रियामा ऋतवौ मुहूर्तान्ययने उभे हायनं च युगान्येवं परार्धान्ता परिचये नद्योर्णहृदाः कूपा वापि पल्वल निर्झराः लतौषधिद्रुमाश्चैव स्वक्सारापादपाश्चये वनस्पतिपुरग्राम गिरयः पत्तनानि च एते सर्वे मूर्तिमन्तः पूज्यन्ते स्वात्मनो गुणैः न तेषां कश्चिदप्यस्ति ह्यपूर्वस्वामिवर्जितः स्वे स्वेधिकारे सततं पूज्यन्ते फलदायिनः स्वस्वामियोगमाहात्म्यात् सर्वे सौभाग्यशालिनः अधिमासः समुत्पन्नः कदाचित् पाण्डुनन्दन् तमोचुः सकला लोकान् असहायं जुगुप्सितम् अनर्हो मलमासोयं रविसङ्क्रमवर्जितः अस्पृश्यो मलरूपत्वात् क्षुभि कर्मणि गर्हितः श्रुत्वैतद्वचनं लोकान् निरुद्योगोहतप्रभः दुःखान्वितोति दुःखात्मा दुःखान्वितोति खिन्नात्मा चिन्ताग्रस्तैकमानसः मुमूर्षुरभवत्तेन हृदयेन विदूयताम् ततः कैश्चिद्दयावद्भिः पौनःपुण्येन बोधितः पश्चाद्धैर्यं समालम्ब्य वैकुण्ठं शरणं गतः प्राप्तो वैकुंठभवनं यत्रास्ते दीनवत्सलः अन्तर्गृहं समागत्यं माधवं दृष्टवान् परम् अमूल्यरत्नरचिते हेमसिंहासने स्थितं तदानीं केशवं दृष्ट्वा दण्डवत्पतितो भुवि प्राञ्जलिः प्रयतो भू नेत्रतः वाचा गदगदया सौम्य बभाषे धैर्यमुद्वहन। इति श्रीबृहन्नारदीये महापुराणि पुरुषोत्तममासमाहात्म्ये अधिमासस्य वैकुण्ठप्रापणं नाम तृतीयोऽध्याय श्रीपुरुषोत्तमार्पणमस्तु